मुद्गलपुराणं खण्डं वन् वक्रतुण्डचरितम् अध्यायं फिफ्टि त्रि नारायण याज्ञवल्क्यसंवादं श्रीगणेशाय नमः नारायण उवाच गणेशाधारमेतत्त्वं जानीहि ब्राह्मणोत्तम हृदि बुद्धि प्रदा बहि सिद हदस्मा सदाव आद पूज्यो महामुने आद सध्ये तिने संशय गुणूप्रह्मा गणेश सिद्धिबुद्धिपदि सोहि सर्वपूज्यश्च भो मुने स्वानन्दो यस्य लोको विवर्जितः। अगम्यो मुनिदेवानां द्वन्द्वहीनः परात्परः एवं गणपतिं ज्ञात्वा मुच्यते सर्वबन्धनाद् तदाधारमिदं सर्वं जगद्ब्रह्ममहामदे सर्वैरप्येकदा तत्त्वाैर्मत्सरेण समन्वितैः वादकृदो महाभाग अहं श्रेष्ठ इति मदाधारमिदं सर्वं पालयामि सृजाम्यहम् हरामि मायया तस्मात् स्वेच्छारूपोऽहमेव च एवं परस्परं सर्वे तत्त्वात्मानो महाबलाः विवादं च क्रियेत्तत्र सामर्थ्येन विमोहिताः ततस्तत्र गुणाधीशो ब्राह्मणस्य च वेश्यभृत आययौ वादशान्त्यर्थं ज्ञानादानार्थमादराद तं दृष्ट्वा विस्मिता देह्वाक्कोऽयमत्र समागतः आत्माकारा वयं सर्वे तत्रास्य च गदिकथम् तदस्थं सर्वतत्त्वानि पप्रच्छुक्को भवानिति कथं मार्गत्वया प्राप्तो ब्रह्माकारेषु वर्त्मसु तदस्तान् सद्विजो हृष्टो जगौ वै योगमायया मया मार्गकृदो क्ष्यत्र ब्राह्मणेन सुयोगिना किमर्थं वै यूयमपि विवादं कुरुधः तन्मे वदद तत्त्वानि करिष्यामि हिदं महद तदोहृष्टानि तत्त्वानि तमोचुश्रेष्ठभावदः कस्तिष्ठदि वदप्राज्ञत्वेष्वस्मत्सु वै प्रभो तेषां वचनमकर्ण्य तानुवाजद्विजोत्तमः तत्त्वाद्धारमिदं सर्वं विद्यते नात्र संशयः विश्वं त्यक्त्वा यूयमपि पश्यदो मम तिष्ठद विश्वं विदीर्यते सर्वं येन त्यक्तं स प्रभुः यदि श्रुत्वा वच सर्वैस्तधेदिप्रतिपाद्यतम् क्रमेण त्यक्तुमारेभे आत्माकारा महाबलाः ब्रह्माकारा च या पृथ्वी विश्वं त्यक्त्वा स्थिता भवत् तथेदत्मकिलं विश्वं न विनष्टं तु भावतः तदो जलेन त्यक्तं तथा वै तादृशं स्थितम् ततस्तु तेजस त्यक्रदन तथा तद वायु दूरं महामुने तथा सकल विश्व पूर्ववस्थित आकाश न सम तथा वैतादशंब तन्मात्राभिस्तदस्त्यक्तं तथा वै पूर्ववद्बभौ तन्मात्राभिस्सफितानि भूतानि च महामुने पञ्चापि दूरथस्थित्वा शुशुचुर्विप्रभाणि च ततो ज्ञानेन्द्रियैस्त्यक्तं त्यक्तम् तथापि तादृशम् बभौ तद इन्द्रात्मकम् ब्रह्म त्यक्त्वा दूरे स्थितम् मुने तथापि विश्वमेवेदम् पूर्ववत्संस्थितम् किल एवम् देवगणाः सर्वे इन्द्रियाणाम् प्रकाशकाः आत्माकारास्तिदा दूरम् विश्वं महामुने, त्यवा विमुने तथा सकल विश्व बभौते सुविहलास्तेजसोभवस्तद्रमण त्यक्रम विश्व विश्वं भी संब प्राणात्मकेन सन्त्यक्तं तथा वै तादृशं बभौ तदो मनोमयेनैव ब्रह्मणा त्यक्तमादराद तथापि सम्बभौ विश्वं केन केनचिन्मुने तदो विज्ञानरूपेण त्यक्तं तदपि तद्बभौ तदानन्दरूपेण त्यक्तं विश्वं बभौ तदा तदो नादात्मकेनैव ब्रह्मणा त्यक्तमादराद तदो बिन्दुमये नैव त्यक्तं विश्वं बभौ मुने सोऽहं ब्रह्मात्मकेनापि त्यक्तं विश्वं बभौ मुने तदो बोधात्मना तथा विश्वं च तदोविदेहरूपेण त्यक्रं तदपि तदप्यसत्स्वरूपेण त्यक्तं ततोऽपि सत्स्वरूपेण त्यक्रं विश्वं बभौ मुने तदस् समस्ववेद्येन त्यक्तं विश्वं समावभौ तदो नेदिष्ववेद्येन त्यक्तं वै विश्वमाबभौ तदस्वानन्दरूपेण त्यक्तं विश्वं लयं ययौ तदस्ते विस्मिताः सर्वे स्वनन्दं तुष्टु गुर्मुने प्रहृष्टमनसो भूत्वा प्रार्थया मा सुरादराद सकलं यत्त्वदाधारमस्माकं त्वं विशेषतः नायकः सर्वतत्त्वाना मदो भव विनायकः विनायकनमस्तुभ्यं पुनर्विश्वं सृजप्रभो यथा पूर्वस्थितं स्वामिंस्तथा कुरुजगत्पदे एवं तैः प्रार्थितो देवो विशेषेण विनायकः निर्ममे सकलं विश्वं यथा पूर्वमुनीश्वर ततस्ते ब्रह्मरूपत्वात् तद्विश्वं विविशु पुनः यथा स्वस्थानमात्मानमाश्रित्य मोमुदुस्तदः जगदीश्वरनामान सर्वे शास्ते प्रकीर्तिताः अनेन विधिना ब्रह्म दव्यं तद्विशेषतः सविनायक इत्युक्तो द्विविधो याज्ञवल्क्यक संयोगेन निजानन्दो निरानन्दो ह्ययोगतः द्विविधे नाशभूते च योगरूपोऽयमुच्यते विनायको महातेजा ब्रह्मणां नायक स्मृतः तं विदित्वा प्राप्ता महामुने अधः शान्त्यर्थमत्यन्तं तमाराधाय भो मायाभ्रान्तिकरी जन्तोर्वक्रासङ्कथिदा मुने तुण्डेन खण्डितां भक्त्या तेनायं वक्रतुण्डकः वक्रतुण्डं च सर्वेषां शरणं या हि मुने तदा योगीन्द्रसेव्यस्त्वं भविष्यसि न मनो वाणीमयं सर्वं गकाराक्षरमेव च मनोवाणी विहीनं च नकारं विद्धिमानध तयोस्वामी गणेशोऽयं योगरूपप्रकीर्तिदः तं प्राप्य ब्रह्मभूताश्च भवन्ति खलु जन्तवः इदं वेदान्तस्सम्भूतं रहस्यं कथितं मुने गोपनीयं प्रयत्नेन तेन सिद्धिमवाप्स्यसि इत्युक्त्वा विररामाध तदा नारायणस्वयं गणेशायनमस्तुभ्यमित्युवाच पुनःपुनः ॐ तत्सदि श्रीमदान्ध्ये उद्गले महापुराणे प्रथमे खंडे वक्रतुंडचरि नारायणयाज्ञवल्य संवाद नाम पंचाश्त ओ